तोणूति ओन्रावद् दशकम् भक्तिन्मेन्मै श्रीकृष्णत्वत्पदोपासनमभयतमम् भक्तमित्यार्थदृष्टे मद्यस्यार्थस्य मन्ये व्यपसरति भयम् येन सर्वात्मनैव यत्तावत्त्वत्प्रणीतानिह भजनविधि नास्ति मोहमार्गे दावन अव्यावृदाक्ष स्खलति न गुहचेत् देवदेवाखिलात्मन् भूमन काये वाचा मुहुरपि मनसा त्वद्बल प्रेरितात्मा यद्यत् कुर्वे समस्तम् तदिह परतरे त्वय्य सा जात्यापि गच्छ्वाह त्वयि निहितमन कर्म वा किन्द्रियार्थ प्राणो विश्वम् पुनीते न तु विमुखमनास्त्वत्पदात् विब्रवर्य भीतिर्नामद्वितीयाद् भवति कल्पितं कल्पितम् च द्वितीयम् तेनैक्याभ्यासचीलो हृदयमिक यदा शक्तिबुद्ध्या निरुन्ध्या माया विद्धेतु तस्मिन् पुनरपि न तदा भाति मायादिनाथम् तत्त्वाम् भक्त्यामकर्त्या सततमनुभजन् ईशभीतिम् विजह्या भक्तेरुभक्तिवृद्धे तव चरणजुषाम् सङ्गमेनैव पुंसाम् आसाद्ये पुण्यबाजा श्रियैव जगति श्रीमताम् सङ्गमेन तत्सङ्गो देव भूयान् मम खलु सततम् तन्मुगादुन्मिषद्भिः त्वन्माहात्म्यप्रकारैर्भवति च सुदृटा भक्तिरुद्धूतपापा श्रेयो मार्गेषु भक्तावि बहुमतिर्जन्मकर्मा भूय गायन् शेमाणि नामान् यपि तदुभयत भृधृतम् बृद्धृतात्मा उद्यता स कदाचित् गुहचितपि रुदन् प्रगायन् उन्मादीव बृनृध्यन् हयि कुरु करुणा लोकबाह्यः शरेयम् भूतान्येतानि भूतात्मकम् अपि सकलम् पक्षिमत्स्यान्मृग दीन् मर्त्यान्मित्राणि शत्रून् अभियमितमतेस्त्वन्मयान्यानमानी त्वत्सेवायाम् कि सिद्धेन् मम तव कृपया भक्तिदार्ढ्यम् विराग त्वत्तत्त्वस्यावभूतो अपि च भुवनपते यत्नभेतम् विनैव नो मुह्यन् शूदृडात्ये भवचरणि भवेस् त्वन्निलीनाचयत्वात् चिन्ता सातत्यशाली निमिषलवमपि त्वत्पदात्त प्रगम्भ इष्टानिष्टेषु तुष्टि व्यसनविरचितो माहिकत्वावबोधात् ज्योत्स्नाभिस्त्वन्नगेन्धो अधिगशिशिरे तेनात्मना सञ्चरेयम् भूतेष्वेषु त्वदैक्य स्मृतिसमधिगतो नाधिकारे दुना चेत् त्वत्प्रेम त्वत्तमैत्री जटमतिशुकृभा त्व भूयातु पेषा अर्चायाम् वा समर्चा भक्तलोगातमत्वम् आवृद्धत्वत्स्वरूपम् क्षितिजलमरुधा आत्मना विक्षिबन्ति जीवान् भूयिष्टकर्मावले विवशगते दुःखजाले क्षिपन्ति त्वन्मायामा विभून्मा मये कल्पते तत्प्रशान्त्यै त्वत्पादे भक्तिरेभेत्य वददयि विभो सिद्धयोगी प्रबुद्ध दुःखान्यालोक्यजन्तोष् वलमुदित विवेकोऽहमाचर्यवर्यात् लब्ध्वा त्वद्रूपतत्त्वम् गुणचरितकदाद्युद्भवद्भक्तिभूमा मायामीनान्तरित्वा परमसुखमये त्वत्पदे मोदिता हे तस्यायम् पूर्वरङ्ग पवनपुरपते नाच याचे शरोघान् कृष्णा कृष्णा मुकुन्ता जनार्दना कृष्णगोविन्दनारायणहरे अच्युदानन्तगोविन्दमाधवा सच्चिदानन्तनारायणहरे